श्रीहरये नमः सप्तमस्कन्धः अथ प्रथमोऽध्यायः राजोवाच समप्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् इन्द्रस्यार्थे कथम् दैत्यान् अवधीत्विषमो यत न साक्षात् निःश्रेयसात्मनः नैव सुरेभ्यो विद्वेषो नोद्वेगश्च गुणस्य हि इति नः सुमहाभाग नारायणगुणान् प्रति संशयस्सु महाञ्जातस्तद् भवांश्चेतुमर्हति साधु पृष्टं महाराज हरेश्चरितं अद्भुतं यद्भागवतमहात्मयं भगवत्भक्तिवर्धनं गीयते परमं पुण्यम् ऋषिभिर्नारदादिभिः नत्वा कृष्णायमुनये कथयिष्ये हरे कथा निर्गुणोभिह्यजो व्यक्तो भगवान् प्रकृतेः परः स्वमायागुणमाविश्य भाद्यभातकथां गतः सत्वं रजस्तमयिति प्रकृतेर्नात्मनो गुणाः न तेषां युगभद्राजन् ह्रास उल्लास एव वा जयकाले तु सत्त्वस्य देवर्षीन्रजसोऽसुरान् तमसो यक्ष रक्षांसि तत्कालानुगुणो भज्योतिराधिरिवा भाति सङ्घातान्न विविच्यते भिदन्त्यात्मानम् आत्मस्थं मतित्वा कवयोऽन्ततः यथा शिस्रुषुः पुरा आत्मनः परो रजो सृजत्येष पृथक् सत्वं विचिद्रासु ह्रिरं शूरीश्वर सयिष्यमानस्तमयीरयत्यसो कालं चरन्तं सृजति स आश्रयं प्रधानपुम्भ्यां नरदेव सत्यक्रेत् येष राजन्नपि कालयीशितात् सत्वं सुरानीकं यि तत्प्रत्यनीकान् असुरान् सुरप्रियो रजस्तमस्कान् प्रविणोत्युरुश्व अत्रैवोधा हृतपूर्वम् इतिहाससुसर्षिणान् प्रीत्या महाकृतौ दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतो वासुदेव भगवति सायुज्यं चेति भूभुजः तत्रासीनं सुरऋषिं राजा पाण्डुसुतक्रतो पप्रच्छ विस्मितमनं मुनीनां शृण्वतामिधं युधिष्ठिर अहो अध्यद्भुतं चेत् दुर्लभैकान्तिनामपि वासुदेव परे प्राप्तिश्चैत्यस्य विद्विषः ये तद् वेदितुमिच्छामः सर्व मुने भगवन्निन्धया वेनो द्विजैस्तमसि पातितः धमघोषस्सुतः पाप आरभ्य कलभाषणात् सम्प्रत्यमर्षि गोविन्दे धन्दवक्त्रश्च धुर्मतिः सपथोऽसहृत् विष्णुं यद्ब्रह्मपरमव्ययं स्वित्रो नजातो जातो नान्दं विविशतु स्तमः कथं तस्मिन् भगवति दुरवग्रागदा मनी पश्यतां सर्वलोकानां लयमीयतु रञ्जसा एतद्भ्राम्यति मे बुद्धिर्दीभार्चिरिववायुना ब्रूह्ये तत्तद्भुततमं भगवांस्तत्र कारणम् श्रीशुक उवाच राज्ञस्तत्त्व च आकर्ण्य नारदो भगवान् ऋषिः तुष्टः प्रागतमाभाष्य शृण्वत्यात्सथक् कथाः नारद उवाच निन्दनस्तव सत्कार्यकारार्थं कळे परं प्रधानपरयो राजन् अविवेकेन कल्पितं हिंसा तदभिमानेन दण्डपरुष्ययोर्यथा वैषम्यमिह भूतानां ममाहमिति पार्थिव यन्निबद्धोऽभिमानोऽयं तद्वधात् प्राणिनां वदहा तथा न यस्य भिमानो परस्य धमकर्तुर्हि हिंसाकेनास्य कल्प्यते तस्मात् वैरानुबन्धेन निर्वैरेण भयेन वा स्नेहात् वा युज्यात् कथं चिह्नेक्षते पृथक् यथा वैरानुबन्धेन मर्त्यस्तन्मयधामियात् न तथा भक्तियोगेन इति मे निश्चिता मतिः कीटप्येषकृता रुद्धकुड्यायां तमनुस्मरन् सम्भ्रह्मभययोगेन विन्दधे तत्सरूपताम् एवं कृष्णे भगवती मायामनुजयीश्वरे वैरेण पूतपाप्मान तमाभू अनुचिन्तया कामाद्वेषाद्भयात् स्नेहाद् यथा भक्तेश्वरे मनः आवेश्य तदघं हित्वा भगवस्तद्गतिं गताः गोप्यः कामाद्भयात् कंस द्वेषा चैद्याधयो नृपाः सम्बन्धात् वृष्णयत्स्नेहाद् यूयं भक्त्या वयं विभोम् कथमोऽपि न वे न स्यात् पञ्चानां पुरुषम् प्रति तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् मातृष्वसेयो वश्चैद्यो दन्तवक्त्रश्च पाण्डवा पार्श्वदप्रवरौ विष्णो विप्रशापदाश्युतौ युधिष्ठिरौ वाच गीतृशकस्य वा शापो हरिदासाभिमर्शनः अश्रद्धेय इवा भाति हरे ये कान्तिनां देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनां देहसम्बद्ध सम्बद्ध मे नारद उवाच एकधा ब्रह्मणः पुत्र विष्णोर्लोकं यदृश्ययां सनन्दनाधयो जग्मुरन्तो भुवनत्रयं पञ्च षट् हायनार्भा पूर्वेषामपि पूर्वजाः दिक्वाससः द्वास्तौ तान् प्रत्यषेधता असपन्कुपिता एवं युवां वासं न चार्हतः रजस्तमोऽभ्यां रहिते पादमूले मधुत्विषः पापिष्टामासरीं योनिं बालिसौ यातमाश्वतः एवं सप्तौ स्वभवनात् पतन्तौ तैः कृपाळुभिः प्राक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पतां जज्ञाते तौधिते पुत्रौ दैत्यधानवबन्धितौ हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोनुजस्ततः हतो हिरण्यकशिपु हरिणा सिक्ष्मरूपिणा हिरण्याक्षो धरोद्धारे बिभ्रतासौकरं वपुः हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियं जिहांसु अकरोत् नाना सर्वभूतात्मभूतं तं प्रशान्तं शमदर्शनं भगवत्तेजसो स्पृष्टं नासज्ञोत्हन्तुमुद्यमैः ततस्थौ राक्षसौ केशिन्यां विश्रवक्सुतौ रावणकुम्भकर्णश्च सर्वलोक उपतापनौ तत्राभिराघवो भूत्वा न्यहनच्चापमुह्यते रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात् प्रभो तावेव क्षत्रियौ वैरानुभन्ततीव्रेण ध्यानेन अच्युतसात्मथा नीतो पुनर्हरेः पार्श्वं जग्मतुं विष्णुपार्षधौ युधिष्ठिर उवाच विद्वेषोधयिते पुत्रे कथमासीन् महात्मनि ब्रूहि मे भगवन्येन प्रह्लादस्य अच्युदात्मथा इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्दे प्रह्लादचरितमुपक्रमे प्रथमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाद की जय